उपस्थानगृहैः शुभ्रैः वलभीभिश्च शोभितं गवाक्षकैस्तथा जालैः यन्त्रैः सञ्चारिकैरपि सम्मार्जितं सौधकारैः चित्रकारैश्च चित्रितम् दीर्घिकाभिश्च पूर्णाभिः तथा पद्माकरैरपि जलं तच्छुशुभेच्छन्नं फुल्लैर्जलरुहैस्तथा उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः तत्रो पविष्टास्ते सर्वे पाण्डवाः कौरवाश्च उपपन्नान् बहून् कामांस्ते भुञ्जन्ति ततस्ततः अथो ध्यानवरे क्रीडा गताश्च ते परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः ततो दुर्योधनः पापः तद्भक्ष्ये कालकूटकम् विषं प्रक्षेपयामास भीमसेन जिघांसया स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः स वाचामृतकल्पश्च भ्रातृवच्च स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पापकृत् प्रतीक्षितम् तं वै दोषमजानत ततो दुर्योधनस्तत्र हृदये सन्निव कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः ततस्ते सहिताः सर्वे जलक्रीडामकुर्वता पाण्डवाधार्तराष्ट्रश्च तदा मुदितमानसाः